अथर्वेदे अष्टमाष्टके प्रथमोऽध्यायः ओ प्रहोदाजातो उपस्थे न धिर्योधायिषते वया हंसि यन्तापसूनिविदते तलोपाः इमं विधन्तो अपाम् सधस्थे पशुन्ननष्टम् पदैरनुग्मन् गुहाचतन्तमुषिजो नमोऽभिरिच्छन्तो धीराभृकगोविन्दन् हिमन्त्रितो भूर्यविन्दसिच्छन्वै भो वसो मूर्धन्यज्ञायाः सशेवृथो जातः हर्म्येषु नाभिर्युवा भवति रोचनस्य मन्त्रम् भोतारमुषिजो नमोऽभिः प्रान्तै यज्ञन्नेतारमद्धराणाम् विशामकृन्नम् वा आपकम्हौ यवाहन्तसतो सतो प्रभूर्जयन्तम् महाम् विपोधाम् मोरा अमोरम् पुरान् धर्माणम् नयम् गो गर्भम् वरान्ध्रियन् धुर्जिरिश्म शृन्दार्वा आणन्तनत्रम् निपस्त्या आसु परिवेतो यो नौ अतः सङ्गृभ्या विशान्तमो नाभिधर्मणा यन्त्रैरीयतेन स्वस्याचरासोतमा मरित्रा अर्चोमासो अग्नयः पावकाः श्रुतिचयश्वात्रासो वुरण्यवो वनर्षदो वायवो न सोमाः प्रजिह्वया भरते वेपो अग्निः प्रभजुना निचेतसा पृथिव्याः तवायवश्रुचयन्तम् पावकम् मन्द्रम् होतारन्दधिरेजनिष्ठम् यावायमग्निम् पृथिवीजनिष्ठा मापस्ता मृगभोजम् सोऽभिः क्रीरेण्यम् प्रथमम् आहतविष्मा देवास्तदक्षुर्मलेजत्रम् यन्ता आदेवादधिरेहौ यवाहम् पुरस्पृहो मानुषासो यजत्रम् स यामन्नग्ने स्तुपते वयोप्रदे वयन्यशसः संहिपूर्वी बृभ्राते दक्षिणमिन्द्रहस्तम् वसूयवो वसुपते वसूनाम् विद्माहि त्वा गोपतिंशो रघोनामस्मभ्यम् चित्रम् वृषणम् रजिन्दाः स्वायुधम् स्ववसम् सुनेथम् चतुःसमुद्रम् धरुणम् रयीणाम् चरकृत्यं शंस्यम्भोरिवारभस्मभ्यम् चित्रम् वृषणम् रजिन्दाः सुब्रह्माणन्दे भवन्तम् बृहन्त पुरुङ्गभीरम् पृथुबुध्नमिन्द्र श्रुतर्षिमुग्रमभिमातृशाह भस्मभ्यम् चित्रम् सनद्वा आजम् विप्रवेरन्तरुद्रन्तनस्फृतम् शुशुभांसम् सुदक्षम् तत्स्युहनम् पोर्भितमिन्द्रसत्यमस्मभ्यम् चित्रम्षणम् रयिन्दाः अश्वावन्तम् रथिनम् वीरवन्तम् सहस्रिणम् शतिनम् वाजमिन्द्र भद्रौरातम् विप्रवेरम् स्वर्षावस्मभ्यम् चित्रम् मृषणम् रयिन्दाः प्रसप्तकुमृदथेतिम् सुमेधाम् बृहस्पतिम् मतिरच्छा जिगाति य आङ्गिरसो नमसोऽपसद्योऽस्मभ्यम् चित्रम् मृषणम् रजिन्दाः वनेवादो मम दूतास इन्द्रम् स्तोमाश्चरन्ति सुमती जानाःस्पृशो मनसा वच्यमाना अस्मभ्यम् चित्रम् मृषणम् यत्त्वायामि दद्धित इन्द्रबृहन्तम् क्षयमसमञ्जनाना अभितद्यावापृथिवी गृणीता वस्मभ्यम् चित्रम् वृषणम् रजिन्दाः अहम्भम् वसुनः पूर्व्यस्पतिरहन्धनानि सञ्जयामि शश्वतः माम् हवन्ते पितरन्दजन्तवो हन्दाशुषेऽपि भजामि भोजनम् अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिता जगा अजनयमहेरथि अहम् दस्युभ्यः परिनृम्नमाददे गोत्राशिक्षन्दधि चेमातरिष्वने मह्यम् दष्टावज्रमदक्षदाय सम्मयि देवासो वृजन्नपि क्रतुम् ममानेकम् सूर्यस्येव दुष्टरम् मा मार्यन्ति कृतेन कर्त्वेन च अहमेतङ्गव्यजमश्यम् पशुम् पुरीषिणम् सायकेनाहिरण्यजम् पुरो सहस्रा निशिशामिदाशुषेजन्मा सोमास उत्थिनो अमन्दिषुः अहमिन्द्रो न परा आदिज्ञ इद्धनम् न मृत्यवेपतस्थे कदा आचन सोममिन्मा आसुन्वन्तोयाच तावसुनमे पूरवः अहमेतां द्वा द्वे न्वय्ये वज्रञ्युधये कृण्वत आह्वयमानाङ्गमहन्वनाहनम् दृह्दन्ननमस्युर्नमस्मिनाः अभी इदमेकमेको अस्मि निषाणभेद्वा किमुत्रयः करन्ति खलेन परुषान्प्रतिहन्विभोरि किम् मा आनिन्दन्ति शत्रवो निन्द्राः अहङ्गुङ्गुभ्यो अतिथिमस्करमिषन्नवृत्रतुरम् ऋक्षुधा हारयम् यदि प्रर्णजघ्न उत माकरम् नहे प्राहम् महे वृत्रहत्ते अशुश्रमि प्रमेनमेशाप्य इषे भुजे भूद्गवामेशे एसङ्ख्याकृतद्विता दिद्युञ्जतस्य समितेषु मह्मयमादिदे एलं शंस्य मुख्यम् करम् प्रनेमस्मिन् ददृशे सोमो अन्तर्गोपानेममाविरस्था कृणोति सिग्मशृङ्गम् बद्धो अन्तः आदित्यानाम् वसूनाम् रुद्रियाणाम् देवो देवानान्नमिनामिधाम ते मा अहन्दा अङ्गृणते पूर्व्यम्बस्वहम् ब्रह्मकृणभं मह्यम् वर्धनम् अहम्बु व्यङ्ग्यजमानस्य चोदिता यज्वनः साक्षि विश्वस्मिन्भरे माम् धुरिन्द्रन् नाम देवताः दिवश्चग्मश्चापाञ्च जन्तवाः अहम् हरीवृषणाविम्रता रघो अहम् वज्रंशवसे धुष्मादते अहमत्कम् गवजे जिष्णसंहैरहङ्कुत्समावमाभिरूतिभिः अहम् शुष्णस्य श्लसि तावधर्यमन्नयोर आर्यन्नामदस्य अहम् पिदेव वेतसूङ्ग्रभिष्टजेतुग्रम् कुत्सा अहम् रन्धयम् मृगजम् श्रुसर्वडे जन्मादिहीतवयुनाचनानुषक् अहम् वेशन्नम् रमायवेकरमहंसव्यायपड्गृभिमरन्धजयम् अहंसयो नववास्त्वम् रहद्रसंवृत्रे पदासंवृत्रहारुजम् यद्वर्धयन्तम् रसयन्तमानुषग्दूरे पारे रजसो अहम् सूर्यस्य तशे प्रैकषेभिर्वहमान ओजसा यन्ना आसावो मनुष आहनिर्निज हृदकृषेदा सङ्कृत्य अहम् सप्तः नहुशो नहुष्टरः प्राश्रा वयम् शवसा तुर्वशयतुम् अहन्या अन्यम् सहसा सहस्करम् न वौराधतो अहम् सप्त स्रवतो ओधारयम् मृषा आद्रवित्मः पृथिव्याम् सीरा अधि अहमरुणाहम् सिविति रामि शुक्रतुर् युधा विदम् वनवे कातुमिष्टये अहम् तदा आसुधारधि देवा देवा इन्द्रो अविव्येन्द्रेण प्रत्यौत्नेन मघवाः सत्यराधाः विश्वेत्ता ते हरिवश्यची वो भितु राजस्वेषो गृणन्ति तो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे इन्द्रश्रयस्य सुमखम् स सोचिन्नुसख्या नर्य इदस्तुतश्चतुकृत्य इन्द्रो मा भते नरे विश्वा आशु दोर्षुवा आजकृत्ये एषु सप्तते वृत्रे वाप्स्वा अभिषू न मन्दसे के नर इन्द्रयेत इषे येते सुम् स धन्या अभियक्षान् केतेवाजा आयासुर्या आय इन्विवेके अप्सु स्वासूर्वरा आशुपोंस्ये भुवस्तमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु युग्नियाः भुवो नृंश्च्योत्नो विश्वस्मिन्वरे ज्येष्ठश्च मन्द्रो विश्वदर्शने अवानुगन्याया अन्यज्ञमनसो महीन्द्रो कृष्टयो विदुः असोऽनुकमदरो वर्धाश्च विश्वे देता समनातुमाकृषे तु एताविश्वासवनातु तुमाकृषे स्वयम् सूनो सह सोऽयानिदधिशे वरायतेवान् धर्मणेतनायज्ञो मन्त्रो ब्रह्मोऽतम् वचाः एते एविप्रब्रह्मसुरः सुते सदा वसूनाञ्च वसुनश्च दावने प्रते सुम्नस्य मनसा पथा भुवन्वदेः सुतस्य महत्तदुल्पंस्तविरन्तरा आसीद्येनाविष्ठितः प्रविवेशितापः विश्वा अपश्यद्बहुधा ते ए अग्नेजातवेदस्तन्वो अदेव एकाः कोमा आदर्शकतमः स देवो यो मे एतन्वो अयिच्छा आमत्ता बहुधा या आतवेदः प्रविष्टमग्ने अप्सोषदीषु तन्ता आयवो अजिके चित्रभानो होत्रादहम् वरुणविभ्यदा जन्ने देव मा अर्जुनजन्नत्र देवाः तस्य मे तन्द्वो ओ बहुधा निविष्टा एतमर्थम् नचिकेताहमग्निः र्यज्ञरामोरङ्कृत्या तमशिक्षेष्यज्ञे सुगान् रथस्तृणुहि यानान् वाहव्यानि सुमनस्य माहान अग्नेः पूर्वे भ्रातरो अर्थमेतम् रचीवाद्वाहानमन्वावरीभुः तस्माद्भिजा वरुणगौरमाहायम् गौरो कुर्मस्त आजुरजसैन्यदग्ने यथा आयुक्तो जा आतवेदो नरिश्याः अथा आवहासि सुमनस्य मा आनो भागम् देवेभ्यो हविषस्सु जात अजायान्मे अनुजातांश्च केवलादूर्जस्वन्तम् हविषो दत्त भागम् घृतम् चापाम् दीर्घमायुरस्तु देवाः तव प्रयाया अनुयायाश्च केवल ऊर्जः सन्तो हविषः सन्तु भागाः तवा आग्ने यज्ञोयमस्तु सर्वस्तुभ्यन्नमन्ताम् प्रतिशश्चतस्रः विश्वे एदेवा शास्तनमायथे होतावृतो हो वनवैयम् निसद्या प्रवे एब्रूतभागे यम् यथा वोयेन वशाहव्यमा भो अहम् होतान्यसेदयीयान् विश्वे देवामरुतो मार्जुनन्ति अहरहरश्विनाद्भुर्यवम् वाम् ब्रह्मा समिद्भवति साहुतिर्वाम् अजययो होता किरुसयमस्य कमप्यो हेयत्समञ्जन्ति देवाः अहरहर्जायते मासि मास्यथाः देवादभिरहव्यवाहम् म् देवादधिरेहव्यवाहमपम् लुक्तम् बहुकृच्छाचरन्तम् अग्निर्विद्वान्यज्ञ नः कल्पयाति पञ्चयामन्त्रिवृतम् सप्ततम् त्वम् आवोयक्ष्यमृतत्वम् सुवीरम् यथा आवो देवा परिवः कराणि आबाः पूर्वज्रमिन्द्रस्य त्रीणि शता त्रिसहस्राण्यग्निम् त्रिंशत्सदेवानवतासपर्यन् औक्षम् कृतैरस्तृणन् बर्हिरस्मा आदिद्धोता आरन्द्यसारयन्ता यच्छा मम न सासो ओयमागाद्यज्ञस्य विद्वान्परुषश्चिहित्वान् स नो यक्षद्देवतायजीयान्निषत्सदन्तरः पूर्वो अस्मत् अरा आधिहोता आदिशदायजिहीयानभिप्रयांसिसुसितानि ख्यः रमहैयज्ञ्यानन्ददेवाम् ईळामहायज्याम् आज्येन सा देवकर्देववीतिन्नो अद्य यज्ञस्य जिह्वामविरामगुह्याः स आयुरागाः अत्सुरभिर्मसा आ नो भद्रामकर्देवभूतिन्नो अद्य चः प्रथमम् असी जयेनासुराम् अभिदेवासाम ऊर्जाद उत यज्ञिया सः पञ्चजनामोऽहोत्रञ्जुषद्भम् पञ्चजनामोहोत्रञ्जुषन्ताङ्गोजाता उत ये यज्ञासः पृथिवीनः पार्थिवात्पात्मम् हसोऽन्तरिक्षम् दिव्यात्पा तस्मान् न्तुम् तन्मन् रजसो भानुमन्विहिज्योतिष्मतः पथो रक्षाकृतान् अनुर्पणम् वयतजो गुमामपोमनिर्भवजनयादैव्यञ्जनम् अक्षारहो ओरक्ष्यतनोतसो ॐ विष्णुरुध्वम् रशनावोतपिंशत अष्टावन्धुरम् महताभितोरथ येन देवासो अनयम् अभिप्रियम् अस्मन्वति लीयते संरभध्वमुत्तिष्ठतः प्रतरदासखायः अत्रा आजहामये असन्नशे एवा शिवान्वयमुत्तरे मापिवाजान् दष्टा आ मायावे एतपसा आवपस्तवोऽपिभ्रतात्रा आदेवपाना आदिषन्तमा िशे एते नूनम् परशुं स्वायसैयेन दृष्टादेतशो ब्रह्मणस्पतेः सतो नूनङ्गवयः संशिशे तवाशे गर्भेयो एनमरसोतजिह्वया स विश्वाः आस्मना योग्या अभिशिषासर्वनते कार इति ताम् श्रुते ए कीर्तिम् अघवन्महित्वा यत्त्वा आभीते रोदसी प्रावो देवाम् आतिरोदासमोजःप्रजायैः तस्यै यदशिक्ष इन्द्र यदतरस्तन्वा आवावृधानो बलाहानीन्द्रप्रभ्रुवाणो जनेषु मायेत्सा ते यानि युद्धान्याहुर्नाद्यशत्रुम् ननु पुरा विवित्से कुरु ते एव महिमनः चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति त्वमङ्गतादिविश्वानिवित्सेयेभ्यः कर्माणि मघवन्तकर्था त्वम् विश्वाददिशे केवलाज्ञाभिर्या च गुहावसोनि काममिन्मे एमघवन्माविदा आर्यमा आज्ञातात्ममिन्द्रासिदाता यो अदधाज्योतिषिज्योतिरन्तर्यो असु जन्मसु नासम् मधूरि अधप्रियम् शोषमिन्द्रायमन्म ब्रह्मकृतो बृहदुःखादवाचि दूरे तन्नामगुह्यम्बरातेर्यत्ता भीते अह्येताम्बयोधै उदस्तभ्नाः पृथिवेन्द्यामभीकेभ्रातुः महत्तन्नामगुह्यम् पुरस्पृग्येन भूतम् जनयोजेन भव्यम् रत्नञ्जातम् ज्योतिर्यस्य प्रियम् प्रिया समविशन्तपम् च आरोदसी अवृणालोतमध्यम्बम् च देवाङ्कृतः सप्तसप्त चतुस्त्रिङ्गता सरोपेण ज्योतिषाविव्रतेन यदुषहोच्छप्रथमाविभा नामजनयोजेन पुष्टस्य पुष्टम् यत्ते एजा वित्तमवरम्बरस्य महान्महत्या असुरत्तमेकम् विषन् द्राणम् समने बहुनायुवानम् सन्तम् पलितो जगार देवस्य पश्य काव्यम् महित्वाद्यामारतस्य समान शाक्मना शाको अरुणः सुवर्णायो यच्चिकेतसत्यमित्तन्नमोऽगम्बसुस्पार्हमुतजेतोददाता अयिभिर्दसे वृष्ट्यापुंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ये कर्मणः क्रियमाणस्य मन्हर्ते कर्ममुत जायन्तदेवाः युजाकर्माणि जनयन् विश्वौजा अशस्तिहाविष्टमनास्तु राषाट ीत्वे सोमस्य विवावृधानः शूरो निर्युधा समद्वस्यून इदन्त एकम् पर ऊत एकम् तृतीये न ज्योतिषा संविद संवेशने तन् वा अश्चारुरेधिप्रियो देवानाम् परमे चरित्रेः अह्वतो ममो धरुणा आय देवान् दिवे वज्योतिः समामिमीयाः वाद्यसि वाजिनेना सुभेनीः सुवित स्तोमम् सुभितो दिमङ्गाः सुवितो धर्म प्रथमानुसत्या सुवितो देवान् सुभितोनुपत्ना महिम्न येषाम् पितरश्च मे शिरे देवा समविव्यचुरुतयान्यत्विषुरैषा अन्तनोषु निविशुः पुनाः सहो अभिर्विश्वम् परिचक्रमोरजः पूर्वाधा मान्यमितामिमा तनोषु विश्वा भुवनालिये मिरे प्रासा आरयन्तमुदः प्रजा अनु विधाः सूनवोऽसुरम् स्वर्भिदमास्थाः प्रयन्त तृतीये न स्वाम् प्रजाम् पितरः पित्र्यम् सह आवरेष्वदधुस्तन्तुमाततम् नाबाणक्षोदः प्रदिशः पृथिव्याः स्वस्ति हिररिदुर्गाणि विश्वाः स्वाम् प्रजाम् बृहदुःखो महित्वावरेष्वदधादापरे एषु मा प्रगामपथो वयम् मा यज्ञादिन्द्रशोभिनाः मान्तस्थुर्णो अराहातयः यो यज्ञस्य प्रसाधनस्पन्तुर्देवेष्वागतः तमाहुतन्नशीमहि मनोन्वाहुवामहे नाराशंसेन सोमेहेन ना। मितॄणाम् च मन्मभिः आतयेतुमनः पुनः कृत्वे दक्षाय जीवसे ज्योक्तसूर्यम् दृशे पुनर्मः पितरो मनोददातुरैव्यो जनाः जीवम् वयम् सोऽ मनस्तनोषु विभ्रतः प्रजावन्तः स चेमहि वृत्ते एषमम् वय एव स्वतम् मनोः जगामदोरकम् जीवसे यत्तेदिमयत्पृथिवीम् मनोः जगामदोरकम् तरुत्त आवर्तयामसिहक्षया आय जीवसे यत्ते भूमिम् तत्र आवर्तयाम श्रीहक्षया आय जीवसे यत्ते चतस्रः प्रदिशो मनो जगामदूरकम् तत्त आवर्तयाम श्रीहक्षया आय जीवसे यत्ते ए समुद्रमर्णवम् मनो जगामदूरकम् तत्रावर्तयामसीहक्षया आय जीवसे यत्ते मरीची प्रवतो मनोः जगामदूरकम् तत्तः आवर्तयामसि हक्षया आय जीवसे यत्ते ए अपोयदोषधीर्मनो जगामदूरकम् तत्थ आवर्तयामसि हक्षया आय जीवसे यत्ते सूर्यञ्यदुषसम्मनो जगामदूरकम् तत्तः आवर्तयामसि हक्षया आय जीवसे यत्ते पर्वतान्द्रहतो मनो जगामदूरकम् तत्त आवर्तयामसिहक्षया आय जीवसे यत्ते विश्वमिरञ्जगन्मनो जगामदूरकम् तत्त आवर्तयामसिहक्षयाय जीवसे यत्ते परा आः परावतो मनोजगामदूरगम् रत्तः आवर्तयामसि हक्षया आय जीवसे हे यत्ते भूतम् च भव्यम् च मनो जगामदूरकम् रत्तः आवर्तयामसि हक्षया आय जीवसे प्रतार्यायः प्रतरम् न वी यस्थाताहारे वक्रतुमतारथस्याम् असच्यवाहारमुत्तवीत्यर्थम् वरातरम् सुनिर्वृतिर्जीताम् सा बन्धुराजे निधिमन्वन्धरादश्रवांसी तालो विश्वाल्यजरिताममत्तु परातरम् सुनिरृतिर्जयिता अवेष्मा अर्यः पौंस्ये भवे मत्यौर्नभौमिम् गिरजोराज्रान् तालो विश्वाल्यरिताचिकेतपरातरम् सुनिरृतिर्जयिताम् ोषुणः सो नृत्यवेपरादाः पश्ये मनुसूर्यमुच्चरन्तम् सूनो अस्तु परातरम् सुनिर्दिर्जिहीता असुनीते मनो अस्मासु धारय जीवातपेषु प्रतिदाह आयुः दारम्भिः सूर्यस्य सन्दृशि हृते नत्पन्तम् वर्धयस्व असुनीते पुनरस्मासु चक्षुः ोक्वश्येव सूर्यमुच्चलन्तमनुमते मृदया नः स्वस्ति पुनर्नोऽसुम् पृथिवी ददातु पुनर्दौर्देवी पुनरन्तरिक्षम् पुनर्णः सोमस्तम्भम् ददातु पुनः पूजापथ्यास्वस्तिः शंरोदशे सुबन्धवे जे कृतस्य मातराः भरतामपयत्रपोद्योः पृथिवीक्षमारभो वोधुते किञ्चनावत् अवद्वगे अवत्क्रियादिवश्चरन्ति भेषदा क्षमाचरिष्मेकटम् भरतामपयद्रपोद्यौः पृथिवीक्षमारपोमोषुते किञ्च नामवत् समिन्द्रेरजगामनड्वाहय्य आवहदुषीनगाहण्यानाह भरतामपयद्रपोद्यौः पृथिवीक्षमारपोमोषुते किञ्च नामवत् आचनन् त्वे च सन्द्रम्माने एनानामुपस्तुतम् अगन्मविभ्रतो नमाः असमातिम् निदोशनम् देशन्यैनम् रथम् हये रथस्य सत्पतिम् योजनान्वहिषा निपातितस्थो वैरवान् उतापवीरवान्युथा यस्येक्ष्वापुरुपौ व्रते देवान्मराय्येधते दिवे एव पञ्चकृष्टयाः इन्द्रक्षत्रासमादिषु रथप्रोष्ठेषु धारय गिवे एवसूर्यम् दृशे अगस्त्यस्य लभ्यः सत्ये एयुनक्षिरोहिता पणेण्यक्रमेरभिविश्वा अन्राजन्न राधसाः अयम् मातायम् पितायम् जीवातुरागमत् इदम् तव प्रसर्पणम् श्रुवन् भवेः निरिः यथा आयुकम् वरत्र जाह्यन्ति धरुणा आयुकम् ृत्यवेधो अरिष्टता आतये यथेयम् पृथिवी मही राधारेमान्मनस्पतेन हेवादा आचाररे मनो जीवातवेन मृत्यवेधो अरिष्टता आतये वै एव स्मतात् सुबन्धोर्मन आभरम् जीवातवेन मृत्यवेधो अरिष्टता आतये न्याः अग्वातोपवाति सूर्याः नीचीनमघ्न्यादु हेऽ्यग्भवतु तेरपाह अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयम् शिवाभिवर्शनः इदमित्था रौद्रम् गूर्तव चा ब्रह्म कृत्वाशुत्यामन्तराजौ प्राणायतस्य पितरा ब्रह्म नेष्ठाः स इद्दानायदभ्यायवन्वंश्यवानः सूदैरमितवेदिम् तूर्वयाणो भूर्तव चस्तमः इत वोञ्जत मदोनयेतुभवनेतुभिमम् विपश्यत्या वनथो कृष्णा यद्गोश्वरुणीरुषीरद्धिवो न वा आदाश्विनाहुवे वीतम् मे ए यज्ञमागतम् मे अन्नम् साने समस्तृतद्रु प्रतिष्ठयस्य वीरकर्म विष्णदनुष्ठितम् उरस्तराया नग्रेतो ओजहतु गुरुम् दासानौ निषिक्तम् सुकृतस्य योनोः पिता यत्स्वान् हितरमधिष्कर्न् स्मयारेतः सन् ृानफेनमस्य धाजो स्मदापरैतपदभ्रजेताः सरपदालक्षिणापरा रङ्गदानुमे प्रशन्यो जगलब्धे मक्षो न वन्द्यप्रजायाः उपपद्ये सहसा मक्षोकनायाः सख्यन्नवग्वादम्बदम् तर्तयुक्तिमग्मन् विपरः सोऽय उपगोपमावृतदक्षिणा सोऽहच्युता दुरुदुक्षन् मक्षोपरायाः सख्यम् न वीर्योरादो नरेतऋतमित्वरण्यन् सृष्टि यत्ते रेग्न आजन्दसभद्दुःखा आजाः पय उश्रिया आयाः अश्वायत्पश्चावियुता कुथन्तेतिब्रवीति भक्तधीरराणः वसो रुसुत्वाकारवो णेहाविश्वम् विवेष्टिद्रवि नु पक्षो प्रतिलिम्बस्य परिषद्वा नो अग्मन्कुरोषदम् दो नारषतम् विभित्सन् विसृष्णस्य सङ्ग्रथितमदर्वाभितत्पुरुप्रजातस्य गुहायत् भर्गो ओहनाभूत यस्य देवा स्वा अर्णये त्रिषधश्चे निषेदुः अग्निर्हनाभूतजातवे एताश्रुधीनो ओहोतरुतस्य होधात्रिगृह त्यामेरौद्रावर्तिमन्ताना सत्यामिन्द्रगूर्तदेजध्यै पुरुष्पद्वृत्तवर्हि शेरराहाणा मन्दोहितप्रयसा भिक्षुयज्योः अयम् स्तुतो राजाः वन्दिवेधा अपश्चविप्रस्तरविश्वसे हेतुः स कक्ष्येवन्तम् रेजयत्सो अग्निन्नेमिन्नचक्रमर्वतो रघुत्रो सद्विबन्धुर्वैतरणो यष्टाः समर्थम् धेनमस्पन् दुहध्यैः संयन्मित्रावरुणा वृन्दमुक्तैर्ज्येष्ठे एभिरर्यवणम् वरूथैः तद्बन्धुस्सुरिते एजन्धानापाले धिष्ठोरपतिप्रवेणन् सारो नाभिः प्रभास्य वा आघाहम् तत्पश्चाकतिथष्ठिरा स इयम् मेनाभिरिनिहमे एशतस्थमिमे मे एदेवा अयमस्मि सर्वाः त्रिजाः प्रथमजा रतस्येलम् धेतुरदुहज्जायमाना अथा आसुमन्द्रो अरतिर्विभावावस्य ऊर्ध्वायच्छ्रेणिर्नशिसुर्दन्वक्षो स्थिरम् शे वृतम् सुमात अथा काव उपमातिम् कनाय उपमातिंकनाया कस्य चित्परे श्रुतिरिक्तम् शुद्रविणो नस्मञ्या आश्वघ्नस्य वा वृधे अथ त्वमिन्द्रविद्या अस्मान्महो राजेन्द्रपदे वज्रवाहुः दक्षा आचनो मघो नः पाहि सूरेण नेहसस्ते हरिवो अभिष्टौ अभयद्रा आजानागविष्टौ सरत्सरण्योः कारवे एषरण्योः विप्रः प्रेष्ठः स ये अथान्वस्य जेनस्य पुष्टौ रथारे भवन्त इम विप्रष्टा सरण्युरस्य सूनरश्वो विप्रष्टाशिश्रवसश्च सातौ विपोर्यति सख्यायास्मे श्रद्धा आयस्तो मञ्जुजुषे नमस्वान् वर्धदुग्धैर्वचोभिराहि नूनम् यद्वैः वयस उश्रियायाः त ऊषणोऽहो यजत्रा भूतदे एवास ऊतये एष दोषाः ये वाजायताभियन्तो ये जे स्थानि चेतारो अमूराः इति अष्टमाष्टके प्रथमोऽध्यायः